मुद्गलपुराणं खण्डं सेवेन् विघ्नराजचरितम् अध्ययम् फिफ्टीन् चतुर्भुजावतारविक्रमवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच ततः सा गणनाथं तं सस्मार हृदि तन्मयं विश्वमेवेदमालोकयदशेषतः एकदा माखमासे एक दुशुक्लपक्षे गजाननं पुपूजमध्यगे भानौ चतुर्थ्यां मूर्तिगं परम् मूर्तिमध्याद्गणाधीश भूचतुर्भुजः अनन्दसूर्यसङ्काश तेजोयुक्तप्रजापदे तं दृष्ट्वा भयभीता सा सस्मार हृदि कश्यपं स्वगुरुं तं तथा देवं गणेशं भक्तिसंयुता गुरोस्मरणमात्रेण गणेश सौम्यरूपदृक् बालरूपो दिदिं देवीं जगाद मेखनिस्वनः श्रीगणेश उवाच पुत्रोहं ते महाभागे वरदानप्रभावतः मा भयं गुरुकल्याणि पश्य मां सौम्यरूपिणम् तद पश्यतिस्म भयादुरा बालं चतुर्भुजं देवम् शुण्डादण्डधरं परम् परस्वादिमहास्त्रैश्च संयुधं चन्द्रशेखरं लम्बोदरं चैकदन्दं शेषनाभिसमायुधं शूर्पकर्णं त्रिनेत्रं तु नानाभूषणभूषितम् अमूल्यवस्त्रसंयुक्तं गले चिन्तामणिं धरम् दृष्ट्वा तं प्रणनामैव कश्यपेन समन्विता तुष्ठा वा पूज्य विघ्नेशमथर्वशिरसा विभुं ततस्तं कश्यपो नत्वा प्रार्थयामास शान्दितं बालरूपो भव यनते लालनं भवेद धन्योऽहं कृतकृत्योऽहं मत्समो न प्रविद्यते ममत्वं त्वं येन पुत्रो भूत् ब्रह्मणां गणनायकः यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः कथं स मम पुत्रत्वं प्राप्तोऽसीति विडम्बनं एवं सम्प्रार्थितस्तेन वित्यासोऽपि तथा भवद चतुर्भुजधरो बालो बभूवे तत्क्षणात् स्वयं तं प्रणम्य गणाधीशम् कश्यपो कर्षसंयुतः विद्याकर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ततश्चतुर्भुजेनैव माया क्षिप्ता तयोर्हृदि पुत्रभावप्रकाशार्थं तथा तौ सम्बभूवधुः स्नापयित्वा दिदिर्बाल्यं स्तनपानमकारयद जातकर्मचकारैव कश्यपो हर्षसंयुधः द्वादशेह्निद्विजास्तत्र नाम कर्मार्थमाययुः पूजिता कश्यपेनैव तमूचुर्हर्षसंयुताः स्वर्गेषु देवपांश्चायं नरान् पृथ्व्यां तथातले असुरान्नागकूर्मादीन् स्थापयिष्यति बालकः तत्त्वानि चालयन् विप्र तस्मान्नाम्ना चतुर्भुजः चतुर्नां विविधानां च मदो बुधैः मुद्गल उवाच तदो वर्षे द्वितीयस्य प्रह्लादप्रमुखाः परे प्रपेलुर्हण्यमानास्तैर्देवैर्विष्णुमुखैर्विधे सर्वं त्यक्त्वा सुरेशानां पादालं विविशुर्भयाद देवानां च स्वयं विष्णुप्रोधयुक्तो बभूवः इन्द्राद्यैसहितसोऽपि सन्नद्धश्चक्रसंयुतः आययौ दैत्यनाशार्थं पादालेशु महाबलः चक्रं तत्याजदेवेशस्तेन दैत्यामृदा मृधे केचिद्दुःखसमायुक्ता प्रपेलुश्चिन्नदेहकाः शरणं केशवं चैव के जिजग्मुः जि प्रजापते तथापि तान्महाविष्णुर्जखानक्रोधसंयुतः असुरायुर्विगतं विश्वं कर्तुं चैव समुद्यतः दैत्येन्द्राभयसंयुक्ता दिधिं ययुशरण्यदां छिन्नभिन्नकृदाङ्गां स्तान् दिधिर्दृष्ट्वा शुशोचः तथ क्रोधयुधसोऽपि बभूवे गणनायकः तत्याज तत्याजपरशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः परशोस्तेजसा सर्वं व्याप्तं पादालमण्डलं व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन्मृधे देवादाकसमायुक्ता प्रपेलुश्च दिशो दश ततस्तत्र ब्रह्मा बोधयामास केशवं पादालं त्यज सर्वे स्वर्गं भयान्विताः परश्योस्त्यजसा तत्र सन्दग्धा इव देवपाः न शान्तिं प्रलभन्ते तदशम्भूरविर्ब्रह्मा केशवस्तुष्टुवुः परं परशुं भयसं युक्ता देवैर्मुनिगणैः सह शान्तियुक्तं महास्त्रं तद् बभूवे च प्रजापते ततो देवेन्द्रकाः सर्वे चतुर्भुजं ययुः तं प्रणम्यभयोद्विघ्ना मुनिभिर्देवनायकाः नत्वा पूज्य देवर्षय ऊचुः नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये अनादये गणेशाय विघ्नेशाय नमो नमः परेशाय परेषां च पदये परमात्मने विनायकाय विप्रेभ्यो वरदाय नमो नमः लम्बोदराय सर्वेषामुदरस्थाय ते नमः महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वभ ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने न्यासिनां न्यासधर्माय आश्रमहीनाय ते नमः चतुश्रुते पञ्चमाय हेरम्बाय नमो नमः स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च एकदन्ताय देवाय सुराय ते नमो नमः अनाधा नामनाधाय सनाधानां सनाधक ईश्वराणां महेशाय विष्णवेदे नमो नमः ब्रह्मणे बानवेतुभ्यं शक्तये सर्वरूपिणे देवादिभ्यः प्रदात्रे ते दे, पदानां वै नमो नमः किंस्तु मस्त्वां चतुर्णां चा च चा, चालकं स्वभुजैः परम् अतस्त्वां प्रणमा वै चुर्भुज प्रसीदन एव्वा प्रणेमुस्त देवा मुनि मुनिम सताच प्रीता भक्ता भक्तजन प्रिय चुर्भुज उवाच वरान् ब्रूद महादेवा मुनयो मत्त ईप्सितान् दास्यामि स्तोत्र तुष्टोऽहं भवताम्भयवर्जिताः स्तोत्रं भवत्कृतं देवात् सर्वसिद्धिप्रदं भवेदर् पठतां शृण्वतां चैव भयनाश्यकरं परं विशेषधपुत्रपौत्रादिकं सर्वं लभेन्नरः धनधान्यादिकं चान्दे मल्लोकं पठनात् परं एवं तस्य वच श्रुत्वा देवा मुनिसमन्विताः भयकीनाप्रणेमुस्थं जगुर्हर्षसमन्विताः देवर्षय ऊचुः यदि प्रसन्नभावेन वरदोऽसि च पत्मे वै भक्ति रस्तु गुरु तदा दे पादपद्मे वैभक्तिरस्तु निरन्तरम् आज्ञां गुरुमहाभाग तथा वर्तामहे वयं दैत्य ज दैत्यसन्द्रासतापिताः अस्या सन्ततं वयं चतुर्भुज उवाच अद्य प्रभृति देवेशाः पादालस्तान् महासुरान् मा हिंस्यधमहाभागा मया संस्थापितान् पुरा स्वर्गेषु चामरस्थानं पृथिव्यां चन्दृणां सदा पादाले दानवादीनां स्वधर्मस्था भवन्तु यदि भूत्वा विपथका इमे गर्वेण मोहिताः सिद्धिर्न मद्वाक्यान्नात्र संशयः तथेदि प्रणम्यैव देवा स्वस्थानमाययुः तदाधिदानवान् देवा न जघ्नुस्थलसंश्रितान् चतुर्भुजश्च दैत्येन्द्रान् सर्वानाज्ञापयत् प्रभुः ते तथेदितमुच्चार्य हर्षिता स्वस्थलं ययुः ततश्चतुर्भुजो देवोऽन्तर्दधे च प्रजापदे कश्यपो दिदि संयुक्तशुशोच तमनुस्मरन् इतरौ वाक्यमुचे स वाणी चाकाशसम्भवा स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादराद तदाचकारदित्यास चकारदित्या कश्यपो ब्राह्मणैः सह वै चतुर्भुजस्य सर्वदा हृदि चिन्तामणिं ध्यात्वा बहिः पूज्य चतुर्भुजं संस्थितौ भक्तिसंयुक्तौ दिधि कश्यपकौ किल आसुरं भावमुत्सृज्य दिदिर्भक्तिसमन्विता गणपत्यस्वभावेना भजतं तु चतुर्भुजम् ये दच्छदुर्भुजस्यैव चरितं कथितं मया विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः य इदं शृणुयान्मद्यश्रावयेद्वा पठेत् स तु भुक्तिं मुक्तिं लभेद्ब्रह्मभक्तिं विघ्नेश्वरे पराम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म महापुराणे सप्तमे खण्डे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः ॐ